एकदन्तस्तोत्रम् मदासुरं सुजान्तं वै दृष्ट्वा विष्णुमुखा सुराः मुनयः एकदन्तं समाययुः प्रणम्यतं प्रपूज्यादौ पुनस्तं ने मुराधरात् तुष्टुवुर्हर्षसंयुक्ताः एकदन्तं गणेश्वरम् देवर्षय ऊजुः सदात्मरूपं सकलादिभूतम् अमायिनं सोऽहमचिन्त्यबोधम् अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः अनन्तचिद्रूपमयं गणेशम् अभेदभेदादिविहीनमाद्यम् गृहे प्रकाशस्य धरम् स्वधिष्ठम् तमेकदन्तम् शरणं प्रजामः विश्वादिभूतम् हृदि योगिनां वै प्रत्यक्षरूपेण बिभान्तमेकम् सदा निरालम्बसमाधिगम्यम् तमेकदन्तम् शरणम् प्रजामः स्वबिम्बभावेन विलासयुक्तम् बिन्दुस्वनुवारचिता स्वमाया तस्यां स्ववीर्यम् प्रददाति यो वै तमेकदन्तम् शरणं व्रजामः त्वयि अवीर्येण समस्तभूता माया तया संरचितं च विस्मम् दात्मकम् ह्यात्मतया प्रतीतम् तमेकदन्तम् शरणं व्रजामः मदीयसत्ताधरमेकमाद्यम् गणेशमेकम् त्रय बोधितारम् सेवन्त आपुर्यमजन्त्रिसंस्था तमेकदन्तम् शरणम् ततस्त्वया प्रेरित एव नादः तेनेदमेवं जगत्वै जगद्वै आनन्दरूपम् समभावसंस्थम् तमेकदन्तं शरणं व्रजामः तदेव विश्वम् कृपया तवैव सम्भूतमाद्यं तमसापिभातम् एकरूपं ह्यजमेकभूतम् तमेकदन्तं शरणं प्रजामः ततस्त्वया प्रेरितमेव तेन सुष्टं सुसूक्ष्मं जगदेकसंस्थम् सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं प्रजामः स्वप्नं तपसा गणेश संसिद्धिरूपं विविधं बभूव सदेकरूपं कृपया तवापि तमेकदन्तं शरणं प्रजामः संप्रेरितं तच्च त्वया हृदिस्थं तथा सुदृष्टं जगदंशरूपम् जाग्रन्मयमप्रमेयम् तमेकदन्तं शरणं व्रजामः जाग्रस्वरूपं रजसाविभातम् विलोकितं तत्कृपया तथैव तथा विभिन्नम् भवदेकरूपं तमेकदन्तं शरणं व्रजामः एवञ्च सृष्ट्वा प्रकृतिस्वभावात् तदन्तरे त्वञ्च विभासि नित्यम् बुद्धिप्रदाता गणनाथ एकः शरणं शरणम् व्रजामः त्वलाग्ययाभानिग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे आधारहीनानि त्वया धृतानि तवेकदन्तं शरणं व्रजामः मदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः त्वदाज्ञया संहरको हरोऽपि तवेकदन्तं शरणं व्रजामः यदाज्ञया भूर्जलमध्यसंस्थाः ययाज्ञया यदा पः प्रवहन्ति नद्यः सीमाम् सदा रक्षति वै समुद्रः तमेकदन्तम् शरणम् यदाज्ञया देवगणो दिविष्ठो ददाति वै कर्मफलानि यदाज्ञया शैलगणो जलो वै तमेकदन्तं शरणं प्रजामः यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहकरश्चकामः यदाज्ञया कालधरोर्यमा तमेकदन्तं शरणं व्रजामः यदाज्ञया वादिविभाति वायुः यदाज्ञयाग्निर्जठरादिसंस्थः यदाज्ञया वै सचराचरन् च तमेकदन्तम् शरणं व्रजामः सर्वान्तरे संस्थितमेकगूढम् यदाज्ञया सर्वमिदं विभाति रूपं हृदि बोधकं वै तमेकदन्तं शरलं व्रजामः यं योगिनो योगबलेन साध्यं कुर्वन्ति कः कस्तवनेन स्तौति अतः प्रमाणेन सुसिद्धिदोऽस्तु तमेकदन्तं शरलं व्रजामः गुरुःसमदमुवाच एवं स्तुत्वा च प्रह्लादो देवाः समुनयश्च वै तूष्णीम्भावम् प्रपद्यैव ननु गुरुहर्षसंयुताः सदानुवाच प्रीतात्मा एकदन्तस्तवेन वै जगादतान्महाभागान् देवर्षीन् भक्तवत्सलहा एकदन्त उवारा प्रसन्नोऽस्मि च स्तोत्रेण सुरा सर्षिकणाः किला शृणुत्वम् वरदोऽहं वो दास्यामि मनसीप्सितम् त्कृतम् मदीयम् वै स्तोत्रम् प्रीतिप्रलम् मम भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् यञ यमिच्छति तम् वै दास्यामि स्तोत्रपाठतः पुत्रपौत्रादिकम् सर्वम् लभते धनधान्यकम् गयाश्वादिकमद्यन्तम् राज्यभोगं लभे ध्रुवम् भुक्तिम् मुक्तिम् वै लभते शान्तिदायकम् मारणोच्चाटनादीनि राज्यम् बन्धादिकम् च पठताम् शृण्वताम् ऋणाम् भवेच्च बन्धहीनता एकविंशतिवारम् च श्लोकांश्चैवैकविंशतिम् पठते नित्यमेवञ्च दिनानि त्वेकविंशतिम् न तस्य दुर्लभम् किञ्चित् त्रिषु लोकेषु वै भवेत् असाध्यम् साधयेन्मर्त्यः सर्वत्र विजयी भवेत् नित्यम् यः पठते स्तोत्रम् ब्रह्मभूतः स नरः तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै एकदन्तस्तोत्रं सम्पूर्णम्